गणेशपुराणम् उपासनाखण्डम् अध्यायं 57 सेवेन् शक्र उवाच हन्त ते कथयिष्यामि कथामेदां पुरातनीं यथा तेनापि सादृश्यं गणनाथस्य भक्तितः दण्डकारण्यदेशेषु नगरे नन्दुराभिधे एकः कैवर्तको दुष्टो नाम्ना नामैव विश्रुतः आबाल्याच्चौर्यनिरतो यौवने जारकर्मकृत प्रत्यक्षं दृष्टिविगमाद्भरदे च शपत्यपि शपथान्कुरुते मिथ्या परं हद्भेद तदो ततो निःसरिदो ग्रामाद्युतमध्यरदो यतः लोकैर्बहिर्दूरतरगिरिकन्तरकानने स्थितः कान्दायुधो मार्गे जखानपथिकान् बहून् एवं बहुधनो जादो नानालङ्करणैस्त्रियं भूषयामास ससुतां तोषयामास मायौ शस्त्रखड्गं च खेडं च पाशान्धनुरनुत्तमं दण्डं चोभयदो लोहं वहन्पूर्णे महेषुधि वृक्षाग्रे कोटरे वापि स्थितो मारयते बहून् नानाविधानि वस्तूनि वा सांस्याभरणानि च गृहे सञ्चयते नीत्वा विक्रीणादिपुरान्तरे यथेष्टम् भजते नित्यम् विषयान्मन्दिरे निजे एवं पापः समाचारो हन्त्यरण्ये पशूनपि ये कदा कस्यचित्पृष्ठे धावितो योजनावधि सदु तस्माद्गदो दूरं स्कलित्वा पतितो भुवि तद उद्धाय कष्ठेन शनैः शनैर्ययौ कलह अपश्यत्पथि गच्छन् स तीर्थं गाणेश्वरं शुभम् अकरोन्मज्जनं तत्र श्रमेव व्यपोहितं तदो गच्छन् स्वविषयं ददर्श पथिमुद्गलं जपन्तं गणनाथस्य मन्त्रं नाम समन्वितम् खड्गमुद्यम्य निष्क्रोश्यं मुद्गलस्यान्तिकं ययौ कैवर्तको नाम नामाहन्तुं कृतमधिस्तदा जगलुस्तस्य शस्त्राणि खड्गोऽपि दृढमुष्टितः अन्यथा चाभवद्बुद्धिस्तस्य दुष्टस्य तत्क्षणाद द्विरदाननभक्तस्य मुद्गलस्य प्रभावतः जहास मुनिमुख्योऽस्सौ दृष्ट्वा तं तु तथाविधं पप्र च संयतकस्माच्छस्त्राणि बद्धान्यपि च सर्वाणि पतितानि कुतो इन्द्र उवाच गणेशतीर्थस्नानेन मुनेरालोकनेन च ज्ञानवैराग्ययुक्तो सावब्रवीन्मुद्गरुं वचः कैवर्तक उवाच आश्चर्यं परमं मन्ये कुण्ठस्नानेन मे मदिः विपरीताभवद्ब्रह्मन् विशेषाद्दर्शनेन ते बाल्यात् प्रभृति मे दुष्टा बुद्धिपापरता भवत असंख्यातानि पापानि कृतान्यद्यावधि प्रभो इदानीमेव निर्विन्ना मदिर्मे त्वत्प्रसादतः नादास्ये पुनरेतानि शस्त्राणि पतितानि मे कुरु मेऽनुग्रहम्पूर्णमुद्धरस्वभवार्णवाद साधवो ह्यनुगृह्णन्ति दीनान् दुष्कृतिनोऽपि च नसाधु साधु सङ्घमक्वापि दृष्टो महामुने यथा शेवधिसम्पर्को न धातुषु वृथा भवेद शक्र उवाच एवमुक्तो मुद्गलोऽसौ तं जगाद कृपान्वितः शरणागतसन्ध्यागे रमरन्तोषं विशेषतः मुद्गल उवाच विधिप्रयुक्ते दानादौ नाधिकारोऽस्ति कुत्रचिद तथापि नाम जपं कथयामि प्रसादत गजाननस्य परमं सर्वसिद्धिकरं नृणां तदः प्रणाममकरोत् कैवर्तो मुद्गलं मुनिम् गणेशाय नम इति नाममन्त्रमुपादिशत नाम स्वयष्टिं रोपयामास पुरस्तस्य धरातले उवाच चैनं सम्प्रीत्या यावदागमनं मम तावजपस्वनामेदं यावद्यष्टिश्च साङ्कुरा एका सनगदो वायुभक्ष एकाग्रमानसः सायं प्रादर्जलं देहि यष्टिमूले निरन्तरं शक्र उवाच उपदिष्टो मुद्गलेन नामा कैवर्तकस्तदा निराशो जीविते तस्थौ तस्मिन्नन्तर्हिते मुनौ ये कासनगदोरण्ये जजाप नाममन्त्रकम् पुरोधाय मुनेर्यष्टि वृक्षच्छाया समाश्रितः निराहारो निरीहश्च चिदेन्द्रियगणो वशी एवंसहस्रवर्षान्ते सा यष्टिस्साङ्कुराभवद तदः प्रदीक्षामकरोन्मुनेरागमनस्य यः वल्मीकवेष्टिदतनोर्लताजालसमन्वितः तदो मुनिमुद्गलोऽपि दैवाच्च देश्यमाययौ सस्मार च तदा यष्टिं तं च कैवर्तकं यदा ददर्शभ्रममाणः स साङ्गशं यष्टिमुत्तमाम् वल्मीकाक्रान्तदेहं च तं च कैवर्तकं मुनिः दुश्चरं मुनिभिः सर्वैराष्टितं तप उत्तमम् लक्षितम नेत्रमात्रेण यतदा मुनिनां तदा उत्साद्य तस्य देहस्थं वल्मीकं मुनिसत्तमः मन्त्रितेन जलेनास्य शिषेचाङ्गं च चा सर्वशः सदैव दिव्यदेहं तं जगादमुनिसत्तमः प्राप्त प्राप्तवन्दं गणेशस्य सारूप्यं करयो गतः द्विकरं प्रचपन्तं च नाम वैनायकं शुभं उन्मीलीदे तदा नेत्रे मुनिना बोधितस्तु सः तस्य नेत्रोद्भवे वह्निर्विद्युद्वद्गगनं गतः त्रिलोकीमुद्यदो दग्धुं मुनिना वारिदो यतः सोऽपि तं मुनिमानम्यस्वगुरुं करुणायुधम् आलिलिङ्गमुदायुक्तस्तनयः पितरं यथा उपदिश्ये मुद्गलेन नाम कैवर्तकस्तदा वल्मीकात् पुनरुत्पन्नं मानयामास तं सुतं नामकर्मास्य मुद्गलो मुनिरादराद भृशुण्डीरि तदो नृप एकाक्षरं च मन्त्रं च तस्मै प्राहादमुद्गल वरानस्मै देव पश्चाद्भवत्त्वं मुनिसप्तमः इन्द्रादिदेवगन्धर्वैसिद्धैरार्च्यदमो भव यथा गजाननो देवोऽध्यादो दृष्टो तथा हि त्वमपि मुने भ्रूशुण्ठिप्रथितो भव यस्य दे दर्शनं स्यात् स भवेन्नर आयुश्च कल्पलक्षं ते भवितामं वाक्यतः एवम् बहुविधा तस्मै वरान् यच्छति मुद्गले ययुरिन्द्रादयो मुनयो नारदादयः ऊचुस्तं प्रणिपत्यैव भ्रूशुण्डे तव दर्शनाद् सार्थकं जन्मनो विद्या पितरौ च तपोयशः त्वमेव गणनाथोऽसि पूजनीयोऽसि नो मुने सदृशम्पूज्यवान् सर्वान् प्रणम्य च पुनः पद्सनगदो जजापैक्षर मनु पुरो मूर्ति प्रतिष्ठाप्य गणेश मनोहरा उपचार षोडशिरपूपुज दिने दिने आश्रमश् वा सरोवृक्ष लता त्यक्तवैरे सिंहमृगैर्नगुलैर्भुजगोत्तमैः तदो वर्षशतस्यान्ते प्रसन्नो भूद्गजाननः उवाच मत्स्वरूपस्त्वं किमर्थं तपसे तपः कृतकृत्योऽसि सायुज्यमायुषोऽन्ते च लप्स्यसे इदं क्षेत्रसुविख्यादं नाम लेधि भविष्यति अनुष्ठानकृतामत्र नानासिद्धिप्रदं नृणां मन्मूर्तिदर्शनादत्र न पुनर्जन्मभाग्भवेत् अपुत्रच्च लभेत्पुत्रान् विद्यार्थी ज्ञानमाप्नुयात् शक्र उवाच इति ते कथितं सर्वं शूरसेन नृपोत्तम यत्त्वया परिपृष्ठं मे किमन्यच्छ्रोतुमिच्छसि इति श्रीगणेशपुराणे उपासनाखण्डे भ्रूशुण्ड्युपाख्यानं नाम सप्तचाश्तम ओम।